हरि ओम् श्रीयतिता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायण युद्धकाण्डे एकोननवतितमः सर्गः विभीषणस्य रक्षस्य प्रहार तेन वानरय उत्सवानां प्रोत्साहनम् लक्ष्मणेन इन्द्रजिदशाधौ वानरै तदीयानां अश्वानां विनिपातनम् युध्यमानः ततो दृष्ट्वा प्रसक्तो नरराक्षसौ प्रभिन्नौ एव मातङ्गौ परस्पर जयैषिणौ तयोर्युद्धं द्रष्टुकामौ वरचाप धली शूरस् रावणभ्राता तस्थो संग्राममूर्धने ततो विस्फारयामास महधनु अवस्थितः उत्सज च तेष्णाग्राम् राक्षसेश महाशरा ते शराशिखी संस्पर्शा निपतन सक्षसंद्र वयासु वज्रीव महागिरी विभीषणस्याचरा ते प्रशुलासी पट्टिशी चिच्छेदे वीराक्षसांद्र राक्षसोत्तम राक्षसे पर स तदा तु विभीषणः बभो मध्ये प्रधुष्टानां कलभानाम् विवद्दीपः तत सञ्चोदमानोः वै हरिन्द्रक्षो वधप्रियाम् उवाचे वचनं काले कालज्ञो रक्षसांवरः एकोऽयं राक्षसेन्द्रस्य प्रायणमवस्थितः एतत् शेषं किम्ति तर्त्य किं तिष्ठत निहते पापे राक्षसे रणमूर्धने रावणं वर्धयित्वा तु शेषमस्य बलं हतं प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः कुम्भकर्णश्च कुम्भश्च धूम्राक्षस्य निशाचरः जम्बमाली महामारी तीक्ष्णवे घोष निप्रभ सुप्तघ्नो यज्ञकोपश्च वज्रदंसः च राक्षसः संह्रादि विकटो रिघ्न तपनो मन्द एव च प्रगाश प्रगशश्चैव प्रजङ्घो जङ्घैव च अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवाम् विद्युज्जीवो द्विजिहश्च सूर्यशत्रुश्च राक्षसः एकम्पनश्च पार्श्वे चक्रमाली च राक्षसः कम्पनः स त्वन्तोतौ देवान्तैक नरान्तकौ एतान्यस्यातिबलान् बहून् राक्षसप्तमान् बाहुभ्याम् सागरं चित्वा लङ्घ्यताङ्गोष्पदं लघु एतावदेव शेषम्भो जेतव्यम् इति वानरः हठा सर्वे समागम्य राक्षसा बलदर्पितः अयुक्तं निधनं कर्तुम् पुत्रस्य जनितुर्मम धृणाम् अपास्य रामार्थे न्यन्याम् भ्रातुरात्मजं हन्तु कामस्य मे बाष्पम् चक्षुश्चैव निरुध्यति मेवैष महाबाहु लक्ष्मणः शमयिष्यति वानराघ्नत सम्भूय मृत्यानस्य समीपग इति तेनाति यशसा राक्षसेनापि चोदितः वानरेन्द्रः झरुशिरे राव्यधु ततस्तु कपिशार्दूलाः खेडन्तश्च पुन पुनः ममुचुर्विविधा नादान् मेघान् दृष्ट्वैव बर्हिणः सर्वे तैः सर्वै स्वयूथ्यैवृतः तेष्मभि ताडयामासु तेश्मन न खै दन्तैश्च राक्षसान् निघ्नन्तम् वृक्षाधिपतिम् राक्षसा महाबलः परिव्रुर्भयं त्यक्त्वा नेक विधायुधा शरी परशुभिषेख पट्टि शैर्यितो मरे जाम्बवन्तम् मृधे जघ्नो निघ्नन्तं राक्षमम् सम्प्रार तु मरः सञ्जन्ये कपि रक्षताम् देवासुराणां क्रुद्धानां यथा भीमो महासुनः हनुमानपि संक्रुद्ध सालम् उत्पाट्य पर्वतात् स लक्ष्मणम् स्वयम् पृष्ठात् अवरोप्य महामनः रक्षसाम् कदनम् चक्रे दुरासादसहस्र दत्त्वा तु युद्धम् पितृव्यसेन्द्रजित् बली लक्ष्मणम् परविरघ्न पुनरैवाभ्यधावत् तौ प्रयुद्धौ तदा वीरो मृधे लक्ष्मणराक्षसौ शरोघ न भिवर्चन्तु जघ्नतु स्तौ परस्परम् अभिक्षणम् मन्त्र शरज्जालये महावलौ चन्द्रादित्या विवोष्णान्ते यथा मेघैतरस्विनौ न ह्यादानम् न धनुषो वा परिग्रह न विप्रमोक्षो बाणानाम् न विकार्शो न विग्रह न मुष्टिपतिसन्धानम् न लक्ष्य प्रतिपादनम् अदृक्षत तयो तत्र युद्धतो पाणिलाघवात् चापवेग प्रयुक्ते च बाणजालये समन्ततः अन्तरिक्षेऽभि सम्पन्ने न रूपाणि पृच्छकाशिरे लक्ष्मणो रावणिम् रावणेश्चापि लक्ष्मणम् अव्यवस्था भवत्युग्रा ताभ्याम् अन्योन्यविग्रहे ताभ्यामुभाभ्याम् तदसा प्रष्टुतै विशिखैषितै निरन्तरमिवाकाशम् बहूव तमसा वृतम् तैः पतद्भिश्च बहुभिः तयोशरशतैषितै दिशश्च प्रदिशश्चैव बभूवो शरसङ्कुलः तमसा विहितं सर्वम् आसीत् प्रतिभयम् अस्तं गते सहस्रांशो संवृते तमसा च वै हृधिरोहा महानद्य प्रावर्तन्त सहस्रश क्रव्यादादारुणा वाग्भिः न च ज्वालपावकः स्वस्य स्थू लोकेभ्यैति जल् पुस्ते महर्षयः सप्ते तुष्टात्र सन्तप्ता गन्धर्वासहचारणे अथ राक्षससिंहस्य कृष्णान् कनकभूषणान् शरय चतुर्भि मित्री, विव्याध चतुहयान् ततोपरेण भल्लेन ीतेन निशितेन च मुक्तेन सुपत्रेण सुवर्चसा महेंद्राशनिकल्पेन, सुतस्य विचरिषत स तेन बाणाशनिना तरशब्दानुनादिना लाघवाद्रा महातेजा ते मन्दोदरीसुतः स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशेत् तदद्भुतम् अभूत् तत्र सारथ्यम् पश्यताम् युधि हयेषु व्यग्रास् तम् तम् दिव्याध निशितैश्चरे धनुष्यथ पुनर्व्यग्रम् हयेषु मुमुचे शरान् छिदेषु तेषु बाणोघै विचरन्तम् अर्दयामास समरे सौमित्री शीघ्रकृत्तमः निहतम् सारथिम् दृष्ट्वा समरे रावणात्मजः प्रजहो समरोद्धर्षम् विषण्ड स बभूवः विषण्ड वदनं धृष्ट्वा राक्षसं हरियूथपः ततः परम् संवृष्टा लक्ष्मणम् चाभ्य पूजयन् तथः प्रमासीरभसः शरभगन्धमादनः अमृषमाणा चत्वार चक्रुर्वेगम् हरिक ते चास्य हयमुखेषु तूर्णमुत्पत्य वानरः चतुर्षु सुमहावीर्य पेतुर्भीमविक्रमः तेषामधिष्ठिता तै वानरे पर्वतो मुखे मम मुखेभ्यो निरं हया नाम समवर्तत ते हया मथिता भग्ना व्यसवो धरणीं गता ते निहत्य हयान्तस्य प्रमथ्य च महारथम् पुनरुत्पस्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः स हताश्वादवप्लुत्य रथासारथी शर्वक्षेण सौमित्रिम् अभ्यधावतरामणिः ततो महेन्द्र प्रतिमम् च लक्ष्मण वदाति नै हयतमै वृन्दमाजो निशिताञ्च रोतमान् भृशं सदा बाणगणैर्व्यदालयन् इत्याशे युद्धकाण्डे एको नवतीतमः सर्ग श्रीसीतारामचन्द्रर्पणमस्तु